अथ सप्तचत्वारिंशत् सर्गः तस्मिन् प्रविष्टे लंकायाम् कृतार्थे रावणात्मजे राघवं परिवार्याथररक्षुर्वानरृषभाः हनुमानङ्गतो नीलः सुषेणः कुमुदो नलः गजो गवाक्षो गवयः शरभोगन्धमादनः जाम्बवा नृषभस्कन्धो रम्भः पृथुः व्यूढानीकाश्च यत्ताश्च द्रुमानादाय सर्वतः वीक्षमाणादिशः सर्वा वानराः तृणेष्वपि च चेष्टत्सु निरे रावणश्चापि संहृष्टो विसृज्येन्द्रजितम् सुतम् आजुहावततः सीता राक्षस्य स्त्रिजटा चापि शासनात्तमुपस्थिताः ता उवाच हृष्टो राक्षसी राक्षसाधिपः हताविन्द्रजिता ख्यात वैदेह्या रामलक्ष्मणौ पुष्पकम् तत्समारोप्य दर्शयध्वम् रणे हतौ यदाश्रयादवष्टब्धानेयम् मामुपतिष्ठते सोऽस्या भर्ता सह भ्रात्रा निर्विशङ्का निरुद्विग्ना निरपेक्षा चमैथिली। मामुपस्थास्यते सीता सर्वाभरणभूषिता अद्य कालवशम् प्राप्तम् रणे रामं स अवेक्ष्य विनिवृत्तासा सा चान्याम् गतिमपश्यति अनपेक्षा विशालाक्षी मामुपस्थास्यते स्वयम् तस्य तद्वचनम् श्रुत्वा रावणस्य दुरात्मनः राक्षस्यस्तास्तथेत्युक्त्वा जग्मुर्वै यत्र पुष्पकम् ततः पुष्पकमादाय राक्षस्यो रावणाज्ञया अशोकमनिकास्थाम् ताम् मैथिलीम् समुपानयन् तामादाय तु राक्षस्यो भर्तृशोकपराजिता सीतामारोपयामासुर्भिमानम् पुष्पकम् तदा ततः पुष्पकमारोप्य सीताम् त्रिजटया सह जग्मुर्दर्शयितुम् तस्यै राक्षस्यो रामलक्ष्मणौ रावणश्चारयामास पताका ध्वजमालिनी प्राघोषयत हृष्टश्च लङ्कायाम् राक्षसेश्वरः राघवो लक्ष्मणश्चैव हता विन्द्रजितारणे विमानेनापि गत्वा तु सीता त्रिजटया सह ददर्शवानराणाम् तु सर्वम् सैन्यम् निपातितम् प्रहृष्टमनसश्चापि ददर्शपिशिताशनान् वाणरांश्चाति दुःखार्तान् रामलक्ष्मण पार्श्वतः ततः सीता ददर्शो भौ शयानौ शरतल्पगौ लक्ष्मणम् चैव च विसञ्ज्ञौ शरपीडितौ विध्वस्तकवचौ तौ दृष्ट्वा भ्रातरौ तत्र प्रवीरौ पुरुषर्षभौ शयानो पुण्डरीकाक्षौ कुमारामिव शरतल्पगतौ वीरौ तथाभूतौ नरर्षभौ दुःखार्ता करुणम् सीता सुभृशम् विललापः भर्ता रमनवद्याङ्गी लक्ष्मणम् चासिते क्षणा प्रेक्ष्यपां रुरोदजनकात्मजा सर्वा श्मशोकाभिहता समीक्ष्यतौ भ्रातरौ देवसुत प्रभावौ वितर्कयन्ती निधनम् तयोः सा दुःखान्विता वाक्यमिदम् इत्यार्षे श्रीमद् रामायणे आदिकाव्ये युद्धकाण्डे सप्तचत्वारिंशः सर्गः